कृष्णयजुर्वेदीयरुद्रखनपाठः गणानां त्वा त्वा गणानां त्वा गणपदिं गणपदिं त्वा गणानां गणानां त्वा गणपतिं त्वा गणपदिं गणपतिं त्वा त्वा गणपदिगुं हवामहे हवामहे गणपतिं त्वा गणपदि गुं हवामहे गणपदि गुं हवामहे हवामहे गणपदिं गणपदि हवामहे कविं कविगुं हवामहे गणपदिं गणपदि हवामहे कविं गणपदिमिति गणपदिम् हवामहे कविं कविगुं हवामहे हवामहे कविं कवीनां कवीनां कविगुं हवामहे हवामहे कवीं कवीनां कवीं कवीनां कवीनां कविं कविं कवीनां मुपमश्रवस्तममुपवश्रवस्तमं कवीनाम् कविं कविं कवीनामुपमश्रवस्थमं कवीनामुपमश्रवस्तममुपमश्रवस्तमं कवीनां कवीनामुपमश्रवस्थमम् उपमश्रवस्तममेत्युपमश्रवः तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणां ज्येष्ठराजं ज्येष्ठराजं ब्रह्मणां ब्रह्मणो ब्रह्मणो ब्रह्मणां ज्येष्ठराजं ज्येष्ठराजं ब्रह्मणां ब्रह्मणः ज्येष्ठराजमिति ब्रह्मणां ब्रह्मणो ब्रह्मणो ब्रह्मणां ब्रह्मणां ब्रह्मणस्पदे पदे ब्रह्मणो ब्रह्मणां ब्रह्मणां ब्रह्मणस्पदे ब्रह्मणस्पदे पदे ब्रह्मणो ब्रह्मणस्पद आपदे ब्रह्मणो ब्रह्मणस्पद आ पद आपदे पद आ नो न आपदे पद आ नः आनो न आनशृण्वन् शृण्वन् न आनशृण्वन् नशृण्वन् शृण्वन् नो नशृण्वन् नोदिभिरुदिभिः शृण्वन्न नशृण्वन् नोदिभिः शृण्वन्योधिभिरुदिभिः शृण्वन् शृण्वन्यो दिभिषीद सेदो दिभिशृण्ण्वन् शृण्न्यो दिभिषीद ओ दिभिषिदसे दो दिदिभिरुधिभिषेद सादनगं सादनगों सिदो दिभिरुधिभिषीद सादनम् ओ दिभिरित्यो दिभिः स्येदसादन गों सादनगुं सिदशीदसादनं सादनमिधि सादनं श्रीमहागणपतये नमः